मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं तर्टिसिक्स् विकटखण्डमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच अश्वमामहाभागोद्रोणपुत्रप्रदा भवान् कृपेण जगाम जगामवनमुत्तमम् भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्युतं बुद्धे परतरं ब्रह्मा भवत्तत्रैव लालसः बुद्धे पत्युर्गणेशस्य हृदिज्ञानं कथं भवेद परिपूर्णं तदर्थं स गौतमं शरणं व्ययौ कृपस्थं विनयेनैव प्रणम्याश्रमसंस्थितः सेवार्थं भागिनेयेन संयुक्त परमार्थविद कदाचिद्योगिनां मध्ये गौतमः संस्थितो भवद कथयामासयोगं स सान्धितं योगसेवया तत्र हर्षेण संयुक्तोऽश्वमा विनयान्वितः पप्र च कृपसंयुक्तः संशयस्यापनुत्तये अश्वमोवाच योगप्राप्त्यर्थमानन्दात् कस्योपासनमाचरेद योगरूपस्य योगीश बद नमः गौतम उवाच गणेशोपासनं मुख्यं पूर्णं शान्तिप्रदायकं वैवेदे नरे गजमयत्वदः पञ्चचित्तात्ममोहेन तेन सर्वं विमोहितं न जानादिपरं भावं योगदं गणनायकं समोहं चित्तमुत्सृज्य स्वयम् चिन्तामणिर्भवेद तस्माद् विकटभक्या स लभ्यते विकटः प्रभुः पञ्चचित्तमयं यद्यस्माद्विकटभावदः भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननं तच्छ्रुत्वा विस्मिता सर्वे मुनयस्थं प्रणम्य स्वस्वाश्रमं समागम्य विकटे भजने रथः अश्वमा कृपश्चैव तं प्रणम्य महामदिं स्वस्वाश्रमं समागत्य विकटे भजने रदौ मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः प्रपेठ पूज्य नित्यं गणेश्वरं तत् स्वल्पेन कालेन सन्तुष्टो विकटो भवद ददौ योगं सताभ्यां वै पूर्णशान्तिप्रदायकं तथापि तौ महाभागौ पाठं चक्रतुरादरादकण्ठस्य विकटस्यैव विकटं पूज्य नित्यदा एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ तत्रश्वाच कृपस्याग्रे शुश्रुवेत्संस्थितो मार्जार अश्वम्नश्च आश्रणोद। तौ रोगाद्यैर्विहीनौ च जादावज्ञानतस्रवाद अन्दे स्वानन्दगौ जाधाव्येकश्रवणपुण्यदः अधः कं महिमानं ते कथयामि ह्यपारकम् अश्वत्थामा कृपश्चैव स्वस्वांसे सङ्गतौ मुदा अन्दे योगयुधौ विप्र विकडे भजने रतौ शौनक उवाच योगयुक्त कथम सुदस्वाश गौ तौ बभूवधु गणेशदा महचि वद स्व मं सुद उवाच देवाकलाशन भूभार हरणा वैध मानवाध्याम्य संयुदा इह पापं यदा कृत्वा गच्छन्ति यमपमृताः पतन्ति नरकेष्वेव यथा दशरथादयः अथवा पुण्यमुग्रं ते कृत्वा ते स्वर्गगामुदा भवन्ति भोगसंयुक्ता यदा रामो यमस्थले भवन्ति योगयुक्तास्ते यदा स्वा स्वांशगास्तदा तदा कारा गणेशानां कल्पान्ते संगदा मुदा यदा विदूरकः सद्यः कौरवे यमदेहगा यमाकारो गणेशानमभजद्भक्तिसंयुधः अन्ते योगसमायुक्तो यमः परमपावनः ययौ गणेश्वरं विप्र ब्रह्मभूतस्वभावतः यदते कथितं पूर्णं चरित्रं श्रवणात्मकं विकटस्यैव खण्डस्य सर्वसिद्धिप्रदायकम् एवं नानाजनाद्याश्च श्रुत्वा खण्डं महाद्भुतं सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते दक्षमुद्गलसंवादे योगामृद्धार्थशास्त्रे विकटखण्डमाहात्म्यवर्णनं नाम षटत्रिंशोऽध्यायः ओम्